गर्गसंहिता खण्डम् 4 माधुर्यखण्डम् अध्यायम् 19 यमुना सहस्रनामम् माम् धातो वाच नाम्नाम् सहस्रं कृष्णाया सर्वसिद्धिकरं परं पदमां मुनिशार्दूलत्वम् सर्वज्ञो निरामयः सौभरिरुवाच नाम्ना सहस्रम् कालिन्द्या मान्थातस्ते वदाम्यहम् सर्वसिद्धिकरम् दिव्यम् ओम श्रीकृष्णवशकारकम् ओम् अस्य श्रीकालिन्दीसहस्रनामस्तोत्रमन्त्रस्य सौभरिऋषिः श्रीयमुनादेवताः अनुष्टुप्सन्तः मायाबीजमिति कीलकम् रमा बीजमिति शक्रिः श्रीकलिन्दनन्दिनी प्रसादसिद्ध्यर्थे जपे विनियोगः अदध्यानम् श्यामामम्भोज नेत्रां सखनखनरुचिं रत्नमञ्जीरपूजत् काञ्जीकेयूरयुक्ताम् कनकमणिमयेर्बिभ्रदीम् कुण्डले द्वे भ्राजश्रीनीलवस्त्र पुरदमलचलद्धारभारां मनोज्ञां ध्यायेन्मार्तण्डपुत्रीं तनुकिरणजयोदीप्तपाभिराम् इति ध्यानम् ॐ कालिन्दीयमुना कृष्णा कृष्णरूपा सरस्वती कृष्ण वा मां स्वसम्भूता परमानन्दरूपिणी गोलोकवासिनी श्यामा वृन्दावनविनोदिनी राधासखी रासलीला रासमण्डलमण्डिनी रासमण्डलमण्डिनी निकुञ्च माधवीवल्ली रङ्गवल्ली मनोहरा श्रीरासमण्डलीभूता यूधीभूता हरिप्रिया तडिनी दिव्या निकुञ्चतलवासिनी दीर्घ ौर्मि वेगगम्भीरा पुष्प पल्लववाहिनी फनश्यामामेकमाला बलाका पद्ममालिनी परिपूर्णतमापूर्णापूर्णब्रह्मप्रिया परा महावेगवती साक्षान्निकुञ्जद्वारनिर्गदा महानदी मन्दगतिर्विरजा वेगभेदिनी अनेकब्रह्माण्डगदा ब्रह्मद्रवसमाकुला गङ्गामिश्रा निर्जलाभा निर्मला सरिताम्बरा रत्नबद्धो भयतडी हंसपद्मादिशङ्कुला नदी निर्मल पानीया सर्वब्रह्माण्डपावनी वैकुण्ठपरिखी भूतापरिकापापहारिणि ब्रह्मलोकगदा ब्राह्मी स्वर्गस्वर्गनिवासिनी पुल्लसन्ति प्रोत्पतन्ति मेरुमाला महोज्वला श्रीगङ्गाम्भशिखरिणि गण्डशैलविभेदिनी देशान् पुनन्ती गच्छन्ति वसन्ति भूमिमध्यगा मार्तण्डतनुजा पुण्या कलिन्दगिरिनन्दिनी यमस्वसामन्तः सुद्विजा रजिताम्बरा नीलाम्बरापद्ममुखी चरन्दी चारुदर्शना रम्भोः पद्मनयना माधवी प्रमदोत्तमा तपश्चरन्दी सुश्रोणी कूजन् नूपुरमेखला जलस्तिदा श्यामलाङ्गी काण्डवाभाविहारिणि गाण्डीविभाषिणी वन्या श्रीकृष्णं वरमिच्छदी द्वारकागमना राज्ञी पट्टराज्ञी परङ्गदा महाराज्ञी रत्नभूषा गोमदीधीरचारिणि स्वकीया च सुखा स्वार्था स्वभक्तकार्यसाधिनि नवलाङ्गा बलमुग्धवराङ्गा वामलोचना अज्ञातयौवन दीनप्रभा कान्तिर्द्युतिश्चभिः सुशोभा परमाकीर्तिकुशलाज्ञातयौवना नवोढा मध्य का प्रौढा प्रगल्भका धीरा धीरा धैर्यधरा ज्येष्ठा श्रेष्ठा कुलाङ्गना क्षणप्रभाचञ्चलार्चा विद्युत्सौदामिनीतटित स्वाधीनपथिका लक्ष्मीपुष्टा स्वाधीनभर्तृका कलकान्तरिताभिरुचा प्रोत्कण्ठिता कुला कशिपुस्ता दिव्यशय्या गोविन्दहृतमानसा खण्डिता खण्डशोभाण्ड्या विप्रलब्धाभिसारिका विरहर्ता विरहिणी नारी प्रोषितभर्दृका मानिनी मानदा प्राज्ञा मन्दारवनवासिनी चङ्गारिणी चणत्कारीरणन्मञ्जीरनूपुरा मेखला मेखला काञ्जी काञ्जिनी काञ्चनामयी कञ्चुकी कञ्चुकमणि श्रीकण्ठाढ्या महामणिः श्रीहारिणी पद्महारा मुक्दा मुक्दफलार्चिता ताडङ्गिनी दन्तधरा हेमकुण्डलमण्डिता शिखाभूषा भालपुष्पा नासा मौक्तिकशोभिता मणिभूमिकदा देवी रैवताद्रिविहारिणि वृन्दावनगदा वृन्दा वृन्दारण्यनिवासिनी वृन्दावनलता माघ्वी वृन्दारण्यविभूषणा सौन्दर्यलहरीलक्ष्मीर्मधुरा तीर्थवासिनि विश्रान्तवासिनि काम्या रम्या गोकुलवासिनि रमणस्थलशोभाड्या महावनमहानदी प्रणदा प्रोन्न पुष्टाभारती भरदार्चिता तीर्थराजगदीर्गोत्रा गङ्गा सागरसङ्गमा सप्ताब्धिभेदिनी लोला सप्तद्वीपगदा बलाद लुटन्ति शैलान् भिद्यन्ती स्फुरन्ती वेगवत्तरा काञ्चिनी कञ्चनी भूमि काञ्चनी भूमिभाविता लोकदृष्टिर्लोकलीलालोकलोकाचलार्चिता शैलोद्गदा स्वर्गगदा स्वर्ग, स्वर्ग, स्वर्ग, स्वर्ग च स्वर्गपूजिता वृन्दावनी वनाध्यक्षा रक्षा कक्षा तडीपटी असि दर्दुरा धार्दुरीधरा पापां कुश्या पापसिंही पापद्रुमकुटारिणि पुण्यशङ्खा पुण्यकीर्तिपुण्यदा पुण्यवर्धिनि मधोवन नदीमुख्या अधुलातालवनस्थिता कुमुद्वन नदी कुब्जा कुमुदाम् भोजवर्धिनि प्लवरूपा वेगवदि सिंह सर्पादिवाहिनी बहुली बहुदा बह्वी बहुला वनवन्दिदा राधा कुण्डपला राध्या कृष्णकुण्डजलाश्रिदा ललिताकुण्डगाखण्डा विशाखाकुण्डमण्डिता गोविन्दकुण्डनिलया गोपकुण्डतरङ्गिणी श्रीगङ्गामानसि गङ्गा कुसुमाम्बरभाविनी गोवर्धिनि गोधनाढ्या मयूरीवरवर्णिनि नी। सारसिनीलकण्ठाभाकुजत्कोगिलपोतकी गिरिराजप्रसूभूरिरातपत्रातपत्रिणि गोवर्धनाङ्का गोदी दिव्याौषधिनिधिसृदिः पारदि पारदमयी नारदी शारदी भृदिः श्रीकृष्णचरणाङ्कष्टा कामकामवनाञ्जिदा कामाटविनन्दिनी च नन्दग्राममहीधरा बृहत्सानुद्युदिप्रोदा नन्दीश्वरसमान्वि नन्दीश्वरसमन्विता काकली कोकिलमयी भाण्डीरकुशकौशला लोहार्गलप्रदाकारा काश्मीरवत्सनावृदा बर्हिषदीशोणपुरी सूर्यक्षेत्रपुरातीका नानाभरणशोभाढ्या नानावर्णसमन्विता नाना नारी कदम्बाढ्या रङ्गारङ्गमहीरुहा नानालोकगदाभ्यर्चिः नानाजलसमन्विता स्त्रीरत्नं रत्ननिलया ललनारत्नरञ्जिनी रङ्गिणी रङ्गभूमाड्या रङ्गा रङ्गमहीरुहा राजविद्या राजगुह्या जगत्कीर्तिर्घना घना विलोलखण्डा कृष्णाङ्गा कृष्ण प्रिष्ना देहसमुद्भवा नीलपङ्कजवर्णाभा नीलपङ्कज हारिणी नीलाभानीलपद्माढ्या निला नीलाम्भोरुहवासिनी नागवल्ली नागपुरी नागवल्लीदलार्चिता ताम्बूलचर्चिता चर्चामकरन्दमनोहरा सकेसरा केसरिणी केशपाशाभिशोभिता भी कज्जलाभा कज्जलाखदा कज्जली कलिताञ्जना अलक्तदचरणताम्राला ताम्रीकृदाम्बरा सिन्धूरिता लिप्तवाणी सुश्री श्रीखण्डमण्डिता पाढीरपङ्कवसनजडा मांसीरुजाम्बरा आगर्य गुरुगन्धाकृदा तगरा श्रितमारुदा सुगन्धितैलरुजिरा कुन्तलालिः शकुन्तला शकुन्तला पां सुदा च सूर्यप्रभा सूर्यकन्या सूर्य देहसमुद्भवा सूर्यजा सूर्यनन्दिनी संज्ञा संज्ञा संज्ञापुत्री स्फुरछायातपदितापकारिणि सावर्ण्यानुभवा वेदि वडवा सौख्यदायिनि शनैः शरानुजाकीला चन्द्रवंश विवर्धिनि चन्द्रवंशवधुश्चन्द्र चन्द्रावलिसहायिनि चन्द्रावधि चन्द्रलेखा चन्द्रकादा चन्द्रकान्तानुगांशुका वैरविपिङ्गला शङ्गी लीलावत्या गरीमयी धनश्रीर्देवगान्धारी स्वर्मणिर्गुणवर्धिनि व्रजमल्ला बन्धकारी विचित्रा जयकारिणि गान्धारी मञ्जरी डोडी गुर्जर्या सावरी जया कर्णाडीरागिणी गौरी वैराडी गौरवाडिका चतुश्चन्द्रकलाहेरी तैलङ्गी विजयावदी तालीतलस्वरा गाना क्रिया मात्रप्रकाशिनी वैशाली चाचला चारुर्माचारी कुखडीखडा वैभागरी सौरठीशा कैदारी जलधारिका कामाकरश्रीकल्याणी गौडकल्याणमिश्रिता राजसञ्जीविनी खेलामन्तारी कामरूपिणी सारङ्गीमारुदिहोठा सागरी कामवादिनि वैभासि मङ्गला चान्द्री रासमण्डलमण्डना कामधेनु कामलदा कामदा कमनीयका काम कल्पवृक्षस्थलिस्थूला सुधा सौधनिवासिनी गोलोकवासिनि सुभ्रूः यष्टिभृद्वारपालिका शृङ्कारप्रकरा शृङ्गा स्व चाशयो शय्योपकारि पाता सुसखी सी वृंदवनपाल निकुंज भृकुंजुंजाजा भूषिता निकुंजवासी प्रोश्या गोवर्धनतवा विशालालिता राजा मधुमाधवी सखी नैकसखि सखी मध्या महामनाः श्रुतिरूपा ऋषिरूपा मैथिला कौशला स्त्रियः अयोध्यापुरवासिन्यो यज्ञसीदा पुलिन्दकाः रमा वैकुण्ठवासिन्यश्वेदद्वीपसखी जनाः ऊर्ध्ववैकुण्डवासिन्यो दिव्याजिद पदा श्रिताः श्रीलोकजलवासिन्यश्रीसख्यसागरोद्भवाः दिव्या अदिव्या दिव्याङ्गा व्याप्ता स्त्रिगुणवृत्तयः भूमिगोप्यो देवनार्यो लता ओषधि विरुधः जालन्धर्य सिन्धुः सुता पृथु बर्षिष्मदी भवाः दिव्याम्बरा अप्सरः सः सौतला नागकन्यकाः परं धाम परं ब्रह्मपौरुषा प्रभृति परा तटस्था गुणभूर्गीता गुणा गुणमयी गुणा चित्फना सत्सन्मा सदसन्माला दृष्टिर्दृश्या गुणाकरी महत्तत्त्वमहङ्कारो चतुर्व्यूह चतुर्मूर्ति व्योम वायुरदो जलं महीशब्दोरसौगन्धस्पर्शरूपमनेकथा कर्मेन्द्रियं कर्ममयि ज्ञानं ज्ञानेन्द्रियं द्विधा त्रिधाधिभूतमध्यात्ममधि दैवमधिस्थितं ज्ञानशक्तिक्रियाशक्ति सर्वदेवाधिदेवता तत्त्वसङ्खा विरन्मूर्तिः धारणा धारणामयि श्रुति स्मृतिर्वेदमूर्तिसंहिता गर्भसंहिता पारा शरीशैव सृष्टिपारहंसि विधा धृतः याज्ञवल्की भागवती श्रीमद्भागवदार्चिता रामायणमयी रम्या पुराणपुरुषप्रिया पुराणमूर्ति पुण्याङ्का शास्त्रमूर्तिर्मनोन्नदा मनीषाधिषणा ः मुशी वेद सावित्री सम्ज्ञा छाया स्फुर रत्नदेवी रत्न तारा तरणि मण्डला रुजिशान्धिः क्षमा शोभादया दक्षा द्युदि स्प्रभा चर्म खड्गपाणिर्धनुर्धरा धन्योष्टङ्कारणी योद्ध्री दैत्योद्भटविनाशिनी रथस्ता गरुडारूढा श्रीकृष्णहृदयस्थिता वंशीधरा कृष्णवेश्रग्विणी वनमालिनी किरीडधारिणी यानामन्द मन्दगदीर्गदिः चन्द्रकोटिप्रदीका शा तन्वीकोमरविग्रहा भैष्मी भीष्मसुधा भीमा रुक्मिणी रुक्मरूपिणी सत्यभामाजाम्बवदी सत्याभद्रा सुदक्षिणा मित्रविन्दा सखी वृन्दा वृन्दारण्य ध्वजोर्ध्वगा शृङ्गारकारिणी शृङ्गा शृङ्गभू शृङ्गदाखा तिदिक्षेक्षा स्मृतिस्पर्धा स्पृहा श्रद्धा स्वनिर्वृदिः ईशा तृष्णाभिधा प्रीति हिंसाया चाञ्चकमा कृषिः आशा निद्रायोग निद्रायोगिनी योगदायुग निष्ठा प्रधिष्ठा शमिधि सत्त्वप्रकृतिरुत्तमा तमप्रकृति दुर्मर्षि रजप्रकृतिरानदिः क्रिया क्रिया कृतिर्गला निः सात्विक्याध्यात्मिकी वृषा सेवाशिखामनिर्वृद्धिराहूधिप्यङ्गलोद्भव नागभाषा नागभूषा नागरी नगरी नगा नौ नौं का भवनौ भाव्या भवसागरसे दुका मनोमयी दारुमयी मैद, सैकदी सिकदामयी लेख्या लेप्या मणिमयी प्रदिहेमविनिर्मिता शैली शैल भव शीला शीकरा भा चला, चला अस्थिदा सुस्थितातुली वैदकी तान्त्रिकी विधिः सन्ध्या सन्ध्या भ्रवसना वेदसन्धिशुद्धा मयि सायन्दनीशिखा वेद्या सूक्ष्मा जीवकलाकृतिः आत्मभूता भाविताण्वी कमलकर्णिका नीराजनी महाविद्या पूजा प्रतिष्ठा विपुला पुनन्दी पारलौकिकी शुक्लशुक्तिर्मौक्ति जप्रतिधि परमेश्वरी विरजोष्णि विराड्वेणी वेणुगा वेणुनादिनी आवर्धिनी वार्तिकदा वार्तावृत्तिर्विमानग रासाढ्यारासिनी रासारासमण्डलवर्धिनि गोपगोपीश्वरी गोपी गोपी गोपालवन्दिदा गोचारिणि गोपनदी गोपानन्दप्रदायिनी पश्यव्यदा गोपसेव्या कोडिशो गोगणावृता गोपानुगा गोपवदी गोविन्दपदपादुगा वृषभानुसुधाराधा श्रीकृष्णवशपारिणि कृष्णप्राणाधिका शाश्वद्रसिका रसिकेश्वरी अवडोदात्ताम्रपर्णीकृतमाला विहायसी कृष्णवेणी भीमरधिताभिरेव भी महापगा वैया सखी च कावेरी तुङ्गभद्रा सरस्वती चन्द्रभागावेत्रवदी ऋषिकुल्या कगुत्मिनी गौतमी गौतमी कौशिकी सिन्धुबाण रगङ्गादि सिद्धिदा गोदावरी रत्नमाला गङ्गा मन्दागिनी बला स्वर्णदी जाह्नवी वेला वैष्णवी बाला मङ्गलालया बालाविष्णुपदी प्रोक्ता सिन्धुसागरसङ्गदा गङ्गासागरसौभाढ्या सामुद्री रत्नादाधुनी गीरधि स्वर्धुनि भूश्रीर्वामनपदच्युदा लक्ष्मीरमा रमणीया भार्गवी विष्णुवल्लभा सीदार्चेर्जानकि मादा कलङ्करहिता कला कृष्णपादाब्जसम्भुधा सर्वा त्रिपथगामिनी धरा तिराधरित्रिधरणी उर्वीशेषभणस्थिता अयोध्या राघवगुरी कौशिकी रघुवंशजा मधुरा माधुरी पन्था यादवी ध्रुवपूजिता मया योर्बिल्वनीलोद गङ्गाद्वारविनिर्गदा कुशावर्तमयी ध्रव्या ध्रुवमण्डलमध्य ग काशीशिवपुरी शेषा विन्ध्या वाराणसी शिवा अवन्तिका देवपुरी प्रोज्वलोज्जयनीजिता द्वारवति द्वारकामाकुशभूदा कुशस्थली महापुरी सप्तपुरी नन्दिग्रामस्थलस्थिता शालग्रामशिलादित्या शम्भलग्राममध्यगा वंशगोपालिनी क्षिप्ता हरिमन्दिरवर्धिनि बर्हिष्मदी हस्तिपुरी चक्रप्रस्तनिवासिनी दाढिमी सैन्धवी जम्भूः पौष्करी पुष्करप्रसूः उत्पलावर्तगमन नैमिषी बुधा शूकरक्षेत्रविधिदाश्वेतवाराखधारिता तीर्थकारिणी आरिणी सर्वदोषाणां दायिनी सर्वसम्पदां वर्धिनी तेजसां साक्षाद्गर्भवात्सनिकृन्दनी गोलोकतां धनिनी निकुञ्च निजमञ्चरी सर्वोत्तमा सर्वपुण्या सर्वसौन्दर्यशृङ्गला सर्वतीर्थोपरिगदा सर्वतीर्थाधिदेवता श्रीदा श्रीशा श्रीनिवासा श्रीनिधि श्रीविभावना स्वक्षात् स्वङ्गाशदानन्दानन्दा ज्योतिर्गणेश्वरी नाम्नां सहस्रं का गिन्ध्या कीर्तिदं कामदम्बरं महापापकरं पुण्यमायुर्वर्धनमुत्तमम् एकवारं नभयं भवेद द्विवारं पढे प्रपठेन् मार्गे नभयं क्वचिद द्वितीयाम्बुसमारभ्य पठेत् पूर्णावधिम् द्विजः दशवारमिदम् भक्त्या ध्यात्वा देवीं कलिन्तजाम् रोगा रोगीरोगाक्रमुच्यत बधोमुच्येत बन्धनाद गुर्विणी जनयेत् पुत्रं विद्यार्थी पण्डितो भवेद् मोहनं स्तम्भनं चश्वद्वशीकरणमेव च उच्चारम् खादनं च शोषणं दीपनं तथा उन्मादनं तापनं च निद्धि दर्शनमेव च यद्यद्वांशति चित्तेन तत्तत् प्राप्नोति ब्राह्मणो ब्रह्मवर्चस्वीराजन्यो जगदीपतिः वह्यो निधिपतिर्भूया चुद्रछुत्वादु निर्मलः पूजापालयतु यो नित्यम् पठते भक्तिभावदः लिप्यतेन सपापेन पद्मपत्रमिवाम्भस शतवारम् पठे नित्यं वर्षावधिमतः परम् पटलम् पद्धतिम् कृत्वा स्तपं च कवचं तथा सप्तद्वीपमहि राज्यं प्राप्नुयान्नात्र संशयः निष्कारणं पठ्यस्तु यमुना भक्रिसंयुधः त्रैवर्ग्य मेत्य सुहृदि जीवन्मुक्तो भवेदिह निकुञ्चलीला ललितं मनोहरं कलिन्दजाकुललता पदम्बदं वृन्दावनोन्मत्तमिलिन्दशब्दिदम् व्रजेत् स वो लोकमिदम् पटे श्री यः इति श्रीगर्गसंहिताया माधुर्यखण्डे श्री बहुलाश्वसंवादे श्रीसौभरिमान्धादृसंवादे श्रीयमुनसहस्रनामकथनं नामैकोनविंशोऽध्यायः ओ गर्गसंहिता खण्डम् फो माधुर्यखण्डम् अध्यायम् 20 प्रलम्बवधम् श्रीनारद उवाच इति कृष्णस्तवम् श्रुत्वा मान्थादा नृपसत्तमह अयोध्यां प्रययौ वीरो नत्वा श्रीसौभरिं मुनिम् इदं मयादे गोपीनां चरितं शुभं महापापहरं पुण्यं किं भूय श्रोतुमिच्छसि बहुलाश्व उवाच श्रुतं तव मुखाद्ब्रह्मन् गोपीनां वर्णनं परं यमुनायाश्च पञ्चाङ्गं महापादकनाशनं श्रीकृष्णः सबलः साक्षाद्गोलोकाधिपतिप्रभुः अग्रे चकारकं लीलां ललितां व्रजमण्डले श्रीनारद उवाच येकदाचारयङ्गाः स्वाः सबलो गोपबालकैः बाललीलाम् चकारः विहारम् कारयन् बालै लक्षणं विजहारवने कृष्णो दर्शयन् गा मनोहराः तत्रागदो गोपरूपी प्रलम्भकंसनोदितः न ज्ञादो बालकैसो हरिणा विदितो भवद विहारे विजयं रामं नेतुं कोपि न मन्यते ऊ वाह तं प्रलम्बोऽसौ भाण्डीराद्यमुनातडम् अवरोहरण अवरोहरणतो दैत्यो मधुरां गन्तुमुद्यतः दधारखनवद्रूपं गिरीन्द्र इव दुर्गमः बभौ बलो दैत्यपृष्ठे सुन्दरो लोलकुण्डलः जलदो यधा दैत्यं भयंकरं वीक्ष्य बलदेवो महाबलः रुषाहनन्मुनिष्ठिन दृशाहनन्मुष्टिनाथम् शिरस्य अद्रिम् यथाद्रिभिद विशीर्णमस्तको दैत्यो यथा वज्रहदो गिरिः पपादभूमौ सहसा चालयन्वसुधातलम् तज्जो दिर्निर्गतम् दिर्निर्गदं बले बलेलीनं बभूवः तदैव ववृषुर्देवापुष्पैर्नन्दनसम्भवैः अभूजय जय रावो दिवि भूमौ नृपेश्वर एवं श्रीबलदेवस्य चरितं परमाद्भुतं मया ते कथितं राजन् किं भूय श्रोतुमिच्छसि बहुलाश्व उवाच कोऽयं दैत्यपूर्वकाले प्रलम्बो रणदुर्मदः बलदेवस्य हस्तेन मुक्तिम् प्रापकथम् मुने श्रीनारद उवाच शिवस्य पूजनार्थम् हि स्ववने शुभे कारयामास पुष्पाणाम् रक्षाम् यक्षैरितस्ततः तदप्यस्यापि जगृः पुष्पाणि प्रस्फुरन्ति च ततः क्रुद्धो ददौ शापं बली ये गृह्णान्त्यस्य पुष्पाणि स्वे सुरमानवाः भवितारो सुरा सर्वे मच्चापात् सहसा भुवि हू हू सुतोधविजयो विचरन् तीर्थभूमिषु वनं चैत्ररथं प्राप्तो गायन् विष्णुगुणान्पथि वीणापाणिरजानन्वै गन्धर्वः सुमनांसि च गृहीत्वा सोऽसुरो जातो गन्धर्वत्वं विहाय तद तदैव चरणं प्राप्तकुबेरस्य महात्मनः नत्वा तत्प्रार्थनां चक्रे कृताञ्जलिपुड्शनैः तस्मै प्रसन्नो राजेन्द्रकुबेरोऽपि वरं ददौ त्वं विष्णुभक्तः शान्तात्मा तात्मा माशोकं मानद द्वापरान्ते च दे मोक्तिः बलदेवस्य हस्ततः भविष्यदिनसन्देहो भाण्डीरे यमुनातडे श्री नारद श्रीनारद उवाजा हू हू सुतःसगन्धर्वः भून् महासुरः, कुबेरस्य वराद्राजन् परमोक्षम् जगामः इति श्रीगर्गसंहितायाम् श्री नारद, बहुलाश्वसंवादे प्रलम्बवधो नाम विंशोऽध्यायः अध्यायम् श्री नारद उवाच अधक्रीडाप्रसक्तेषु गोपेषु सबलेषु च तृणलोभेन विविशोर्गावसर्वा भी महद्वनम् ता आनेतुम् गोपबाला प्राप्ता मुञ्जाडवीम् पराम् शम्भुतस्तत्र दावाग्निप्रलयाग्निसमो महान् गोभिर्गोपासमेतास्ते श्रीकृष्णं सबलं हरिं वदन्तः पाहि पाहिदिभयार्ताशरणं गदा वीक्ष्य वह्निभयं स्वानां कृष्णो योगेश्वरेश्वरः न्यमीलयम् न्यमीलमाभष्टलोचनानीषत तथा भूत गोपेशु देवो देवानां पश्यतां नृप यम पित्वा महाविनी नित्वा गोपाल गोगणं प्राप्तो भूत्यमुना पारे शुभा शुभाशोकवि हरी तत्र क्षुत्पीडिता गोपा श्रीकृष्णं सबलं हरिम् कृताञ्जलिपुडा ऊचुः क्षुतार्था वयम् प्रभो तदा तान् प्रेषयामास यज्ञ आङ्गिरसे हरिः ते गत्वा तं यज्ञवरं नत्वो चुर्विमलं वच गोपाऊचुः गोपालबालैः सबलः समागतो गाश्चारयन् श्रीव्रजराजनन्दनः क्षुत्संयुतोऽस्मै सगणाय भूसुराः प्रयच्छ ताश्वास् प्रयच्छ ताश्वन्नमनं गमोहिने श्रीनारद उवाच न सर्वे वच श्रुत्वा गोपानिराशा आगत्य इत्यूचुः सबलं हरिं गोपावूचू तमस्यधीष्यो व्रजमण्डले बलीश्रीगोकुले नन्दपुरोग्रदण्डधृकनवर्तदे दण्डमलं मधोः पुरी प्रचण्डचण्डांशो महस्तवस्फुरद श्रीनारद उवाच पुनस्तान् प्रेषयामास तत्पत्नीभ्यो हरिस्वयं यज्ञवाडं पुनर्गत्वा नत्वा विप्रियास्तदा कृताञ्जलिपुडावूचुर्गोपाकृष्णप्रणोदिताः गोपावूचुः गोपालबालयसबलसमागतो गाश्चरयन् श्रीव्रजराजनन्दनः क्षुत्संयुतोऽस्मै शगणाय चाङ्गनाः प्रयच्छताश्वन्नमनङ्गमोहिने श्रीनारद उवाच कृष्णम् समागतम् श्रुत्वा कृष्णदर्शनलालसाः चकृस्तथान्नम् पात्रे शुनीत्वा सर्वा द्विजाङ्गनाः त्यक्त्वा सद्यो लोकलज्जाम् कृष्णपार्श्वम् समाययुः अशोकानां वने रम्य कृष्णातीरे मनोहरे यथा श्रुतं तथा दृष्टं श्रीहरेरूपमद्भुतम् प्राप्या नन्दं गदा सर्वास्तुरीयम योगिनो यथा श्रीभगवानुवाच धन्या यूयं दर्शनार्थमागदा हे द्विजाङ्गनाः प्रदियादगृहाञ्चीक्रम् निःशङ्क भूमिदेवता युष्माकम् तु प्रभावेण पदयोवोद्विजातयः सद्यो यज्ञफलम् प्राप्य युष्माभिः सह निर्मलाः गमिष्यन्ति परम् धाम गोलोकम् प्रकृतेः परम् अथ नत्वा हरिम् सर्व श्रीनारद उवाच ता दृष्ट्वा ब्राह्मण सर्वे स्वात्मानं धिक्प्रचक्रिरे दिद्रिक्षवस्ते दिदृक्षवस्ते श्रीकृष्णम् कंसाधीदानचागदाः भुक्कृदान्नम् सबलकृष्णो गोपालैः सह मैथिल गा पालय न जगामवृन्दारण्यम् मनोहरम् इति श्रीगर्गसंहितायाम् माधुर्यखण्डे श्रीनारदबहुलाश्वसंवादे दावाग्निमोक्षविप्रपत्नीदर्शनं नामैकविंशोऽध्यायः ओम् अध्यायम् ट्वेण्टि टु नन्दादीनां वैकुण्ठदर्शनम् श्रीनारद उवाच एकदानन्दराजोत्सौ सौकृत्वा चैकादशीव्रतम् द्वादश्यां यमुना गोपालैर गोपालैर्जलमाविशद तं गृहीत्वा पाशिभृत्य पाशि लोकम् जगामः तदा कोलाहले जाते गोपानां मैथिलेश्वर आश्वास्य सर्वान् भगवान् गतवान् वारुणीं पुरीं भस्मीचकारसहसा पुरी दुर्गं हरिःस्वयम् कोडिमार्तण्डसङ्काशम् दृष्ट्वा प्रकुपितम् हरिम् नत्वा कृताञ्जलिपाशी परिक्रम्याहदर्षितः वरुण उवाच नमः श्रीकृष्णचन्द्राय परिपूर्णतमाय च असङ्ख्यब्रह्माण्डभृदे गोलोकपतये नमः चतुर्व्यूहाय महसे नमस्ते सर्वतेजसे नमस्ते सर्वभावाय परस्मै ब्रह्मणे नमः केनापि मूढे न कृदं कृतं परं हेलनमद्य एव तत्क्षम्यताम्भोशरणं गदं मां परेशभूमन् परिपाहि पाहि श्रीनारद उवाच इति प्रसन्नो भगवान्नन्दं नीत्वा सुजीवितम् सौख्यम् प्रकाशयन् बन्धून् व्रजमण्डलमाययौ नन्दराजमुखाश्रुत्वा प्रभावम् श्रीहरे स्तुतम् गोपी गोपगण ऊजु श्रीकृष्णं नन्दनन्दनं यदि त्वम् भगवान् साक्षाल्लोकपालयि सुपूजितः दर्शया सुपरं वैकुण्ठं तर्हि प्रभो नीत्वा सर्वं तद कृष्ण एत्य वैकुण्ठमन्दिरं दर्शयामासरूपं स्वं ज्योतिर्मण्डलमध्यदं सहस्रभूज संयुक्तं किरीडकटकोज्ज्वलं शङ्खचक्रगदा पद्मवनमादा चामरान्दो लदिव्याभं ब्रह्माद्यै परिसेवितं तदैव तान् गोपगणान् पार्षदास्ते गदाधराः ऋजुं कृत्वा नदीं धृत्वा दूरे स्थाप्य प्रयत्नदः चकितानिव तान्वीक्ष्य प्रोचुस्ते पार्षदा गिरा रे, रे तूष्णीं प्रभवत मा वने चराः भाषणं मा प्रकुरुत न दृष्ट्वा किं सभा हरेः वेदा वदन्ति चात्रैव साक्षा देवे स्थिते दे प्रभौ यदि शिक्षां गदा गोपाकर्षिता मौनमास्थिताः मनस्यू कृष्ण उच्चसिंहासने अस्मान् दूरा दधकृत्वास्माभिर्वक्त्रि न कर्हि चिद तस्माद् व्रजाद्वरं नास्ति कोऽपि लोको न सौख्यतः यत्रा नेन स्वभ्रात्रापि वार्तास्याधिपरस्परम् यदि प्रवदतस्तान् वै नीत्वा श्रीभगवान् हरिः व्रजमागतवान् राजन्परिपूर्णतमः प्रभुः इति श्रीगर्गसंहितायाम् माधुर्यखण्डे श्रीनारदबहुलाश्वसंवादे नन्दादिवैकुण्ठदर्शनं नाम द्वाविंशोऽध्यायः ओम् अध्यायम् 23 त्रि सुदर्शनोपाख्यानम् श्रीनारद उवाच एकदा नृपगोपाला शकडैरत्नपूरितैः वृषभानूपनन्दाद्या आजग्मुाम्बिकावनं भद्रकालीं पशुपतिं पूजयित्वा विधानतः ददुर्दानं द्विजादिभ्यः सुप्तास्तत्र सरितडे तत्रैको निर्गदो रात्रौ सर्पो नन्दं पदे गृहीत कृष्णकृष्णेदिचुक्रोश्च नन्दोदिभयविह्वलः तदोल्मुखैर्गोपबालास्थोदुराजगरं नृप पदं सोऽपि न तत्याज सर्पोधस्वमणिं यथा तथा डस्वपदा सर्पं भगवान् लोकपावनः त्यक्त्वा तदैव सर्पत्वं भूत्वा विद्याधरकृदि नत्वा कृष्णं परिक्रम्य कृताञ्जलि पुडोऽवद सुदर्शन उवाच अहं सुदर्शनो नाम विद्याधरवरः प्रभो अष्टावक्रं दृष्ट्वा हसितोऽस्मि महाबलः मह्यं शापं ददौ सोऽपि सर्पो भवदुर्मदे तच्चापादम्य तच्चापादद्यमुक्रोऽहं कृपया तव माधव त्वत्पादपद्ममकरन्दरजकणानां स्पर्शेन दिव्यपदवीं सहसागतोऽस्मि तस्मै नमो भगवते भुवनेश्वराय यो भूरिभारहरणाय भुवो वद श्रीनारद उवाच इति नत्वा हरिं कृष्णं राजन् विद्याधरस्तु सः जगामवैष्णवं लोकं सर्वोपद्रववर्जितं नन्दाब्द्या विस्मिता सर्वे ज्ञात्वा कृष्णं परेश्वरम् अम्बिकवनदशीघ्रमाययोर्व्रजमण्डलम् इदं मया ते श्री कथितं श्रीकृष्णचरितं शुभं सर्वपापहरं पुण्यं किं भूय श्रोतुमिच्छसि बहुलाश्व उवाच अहो श्रीकृष्णचन्द्रस्य चरितं परमद्भुतं श्रुत्वा मनो मे तच्छ्रोतुमदृप्तं पुनरिच्छति अग्रे चकारकं लीलां लीलया व्रजमण्डले हरिर्व्रजेश परमो सत्तमा वर्षि सप्तम इति श्रीगर्गसंहितायाम् माधुर्यखण्डे श्रीनारदबहुलाश्वसंवादे सुदर्शनोपाख्यानम् नाम त्रयो विंशोऽध्यायः ओम् अध्यायम् 24 माधुर्यखण्डम् चतुर्विंशोऽध्यायः व्योमासुर अरिष्टवधम् श्रीनारद उवाच एकदा शैलदेशेषु सबलो भगवान् हरिः कृत्वा निलायनक्रीडां चौरपालकलक्षणां तत्र व्योमासरो दैत्यो बालान्मेषा इदान् नीत्वा नीत्वा द्रिदर्यां च विनिक्षिप्य पुनः पुनः शिलयापितधे द्वारं मयपुत्रो महाबलः सत्यचौरं च तं ज्ञात्वा भगवान् मधुसूदनः गृहीत्वा पातयामासभुजाभ्यां भूमिमण्डले तदा मृत्युं गदो दैत्यस्तज्यो देर्निर्गतं स्फुरद दश दिक्षुभ्रमद्राजन् श्रीकृष्णे लीनतां गदं तदा जय जय रावो दिविभूमौ बभूवः पुष्पाणि ववृषुर्देवाः परमानन्दसमृद्धाः बहुलाश्व उवाच कोऽयं पूर्वं कुशल कृद् व्योमो नामाध तद्वद येन कृष्णे घनस्यामे श्रीनारद उवाच आसीत् काश्याम् भीमरथो राजा दानपरायणः यज्ञकृन्मानदो धन्वी विष्णुभक्तिपरायणः राज्ये पुत्रम् सन्निवेश्य जगाममलयाचलम् तपस्तत्र समारेभे वर्षाणाम् लक्ष्यमेव हि तस्याश्रमे पुलस्त्योऽसौ शिष्यवृन्दैः समागतः तम् दृष्ट्वा नोद्धितो मानी राजर्षिर्न नदो भवद शापं ददौ पुलस्त्योऽपि दैत्यो भवमहाकला तदत्तच्चरणोपान्ते पतितं शरणागदम् उवाचमुनिशार्धूलपुलस्त्यो दीनवत्सलः द्वापरान्ते माधुरे च पुण्ये श्रीव्रजमण्डले यदुवंशपदे साक्षात् श्रीकृष्णस्य भुजौजसा ईप्सिता योगिभिर्मुक्तिर्भविष्यदिनसंशयः श्रीनारद उवाच सोऽयं भीमरथो राजा मय दैत्यसुतोभवद श्रीकृष्णभुजवेगेन मुक्तिं पापविदेहराड एकदा गोपबालेषु दैत्योरिष्टो महाबलः आगतो नादयन् गङ्गां तडान् शृङ्गैर्विदारयन् गोप्यो गोपा गोगणश्च वीक्ष्य तं दुद्रुवुर्भयाद भगवान् दैत्यः देवो मा भैष्ठायैत्यभयं ददौ गृहीत्वा तं तु शृङ्गेषु नोदयामास माधवः सोऽपि तं यो जनद्वयम् पुच्छे गृहीत्वा तम् कृष्णो भ्रामयित्वा भुजौजः सा भूपृष्ठे पोधयामासकमण्डलुमिवार्भकः अरिष्टपुनरुद्धायक्रोधसंरक्तलोचनः शृङ्गैश्चरोहितं शैलं समुत्पाट्य महाकलः गर्जयन्खनवद्वीरकृष्णोपरिसमाक्षिपद कृष्णशैलं सङ्गृहीत्वा तस्योपरिसमाक्षिपद शैलस्याभिप्रहारेण किञ्चिद् व्याकुलमानसः भूमौ तदाडशृङ्गाग्रान्निर्गतं तैर्जलम्भुवः श्रीकृष्णस्थं च शृङ्गेषु गृहीत्वा भ्रामयन्मुहुः भूपृष्टे बोधयामासवाधपद्ममिवोद्धृतम् तदैव वृषरूपत्वम् त्यक्त्वा विप्र वपुर्धरः नत्वा श्रीकृष्णपादाब्जम् प्राहगद्गदया गिरा द्विज उवाच बृहस्पतेश्च शिष्योऽघम् वर तन्तुर्द्विजोत्तमः बृहस्पतिसमीपे च पठितुम् गदवाहनम् पादौ कृत्वा स्थितो भुवम् पश्यतस्तस्य सम्मुखे तदा ऋषाः स मुनिः वृषभ त्वम् स्थितः पुरः गुरुहेलन कृत्तस्मात्त्वम् वृषो भवदुर्मदे तस्य शापाद्वृषो भुवम् भङ्गदेशेषु माधव असुराणाम् प्रसङ्गेनासुरत्वम् गतवानहम् त्वत्प्रसादाद्विमुक्तोऽहम् शापदोऽसुरभावदः श्रीकृष्णाय नमस्तुभ्यं वासुदेवाय नमः प्रणतक्लेशनाशाय गोविन्दाय नमो नमः श्रीनारद उवाच इत्युक्त्वा श्रीहरिं नत्वा साक्षात् शिष्यो बृहस्पतेः द्योतयन् भुवनं राजन्विमानेन दिवं व्ययौ इदं मया ते कथितं खण्डं माधुर्यमद्भुतम् सर्वपापहरं पुण्यं कृष्णप्राप्तिकरं परम् कामतं पठतां शश्वत् किं भूय श्रोतुमिच्छसि इति श्रीगर्गसंहितायां श्रीनारद बहुलाश्वसंवादे व्योमासुराजिष्ठासुरवधो नाम चतुर्विंशोऽध्यायः